पश्यत्परमङ्गुहायद्यत्र विश्वम् भवत्येकरूपम् इदम् प्रश्नेरतुहज्जायमाना स्वर्वितोऽभ्यानोषदौराः रथद्वोजदमृतस्य विद्वान् गन्धर्वो धाम परमङ्गुहाय च पदानि निहिता गुहास्य यस्तानि धः पिता च नितास उतबन्धुर्धामानि वेदभुवाना निविश्वा यो देवानान्नामाधयेक एव तम् सम् प्रश्नम् भुवानायन्ति सर्वा परिद्यावा पृथिवे सद्यायमुपादिष्ठसमायावृतस्य वाचमिव वत्तरे भुवनेष्ठाघास्युरेश नन्वे एषो अग्निः परिविश्वाभुवानान्यायमृतस्य तन्त्वम् वितृशेकम् यत्र देवा अमृतमानशानाः सामाने निर्व्योगम् धर्मो भुवनस्य यस्पतिरकयवनमस्यो विक्ष्वेड्याः त्वायो मेब्रह्मणा दिव्यदेवानमस्तेस्तु दिविदेशाधस्थम् दिविः स्पृष्ठो यजतः सूर्यत्वकवयाताहरासो मृणाब्ो भुवनस्य यः ले लेका एव नमस्य सुषेवाः अनवद्याभिः समो जग्माभिरप्सदा स्ववेगम् धर्वासीत् समुद्रासाम् ददानम्माहर्यदः सत्या च पदा च यन्ति अभ्रेय क्षत्रिये या विश्वासु गन्धर्वम् स ताभ्यो बोधे या स्कन्दास्तमेषे च योक्षकाः मामनो मुहाः ताभ्यो गन्धर्वपत्नीभ्योऽक्षराभ्यो करम् नमाह अदो यदा वधावत्यवत्कमधिपर्व भेषजम् सुभयषदै यथा सासि आतङ्गाकुमिदङ्गाशदय्याभेषजानीते एषा मसि त्वमुत्तममाना श्रावमरोगणम् एतेः कालम् चशोरा अवस्राणामिदम् आहत् तथा श्रावस्य भेषाजम् तदुरोगामनीनशत् उपाजेकामुद्धारण्ड्यसमुद्रादधे भेषाजम् तदा श्रावस्य भेषाजन्तदुलोगामशीषमत् अनुस्रावमिदम् माहप्रेशव्याभ्युर्भृतम् रस्य भेषजन्तदुलोगामनीनषत् सङ्गाः भवन् त्वपवोषाधयः शिवाः इन्द्रस्य वज्रो अपाहम् द्वरक्षसा आसात्सृष्टादिशावत्पतम् द्वरक्षसा देर्धायुत्वाय बृहदरणष्यम् त्वक्षमाणा सदैव मणिम् विष्कन्धदोषाणम् जङ्गिणम्बे भ्रमो वयम् जङ्गिणो जम्भाद्देशाराद्विष्कन्धादभिशोषनात् मणिःसहस्रवेर्यः फलेनः पातु विश्वताः अयम् विष्कन्धम् सहतेऽम् बाधत अत्रिणाः अयम् वा विश्वभे सजोजङ्गिणः पा ब्रह्मा सह वेवैर्दत्तेन मणिना जङ्गिणेन मयोभुवा विष्कन्धम् सर्वा रक्षाम् सिव्यायामे सहामहे क्षणश्च माजङ्गिडश्च विष्कन्धादभिरक्षता अरण्यादन्या हृदः कृष्या अन्योलसेग्भ्यः हृद्या दोषेरयम् मणिरथो राते दोषेः अथो सहस्वाञ्जङ्गिडः प्रणायोंसितानिशत् इन्द्राजसहस्वप्रवहाया हिशोराहरिभ्या विवाहसुतस्य मतरिहमधाश्च कानश्चारुर्मदाय इन्द्रजक्षरम् अव्यानप्रणः स्वमथा दिवो न अस्य सुतस्य स्वा आर्णवत्पामदास् सुवाच गुः इन्द्रस्तु राजाण् वृत्रय्य त्रिभेदाबलम् ऋगुर्नसहे शत्रोन्मते सोमस्य आत्मा विशन्तु सुता स इन्द्रपृणः स कुक्षि विभ्यक्रधिये ह्यानाः श्रुधेह भङ्गिरो मे दुषस्येन्द्रस्वयग्भिर्मत्सेह महेरणाय इन्द्रस्य न प्रावोचम् वेर्यानि यानि च कालप्रथामानि वज्रे अहम् न हि मङ्गर्द प्रवक्षणाभिनप्रतानाम् अहम् न हिम् वल्देशश्रियाणम् प्रष्टास्मै आशायकम् अघवा दत्त वज्रमहन्नम् रथमजामहीना समास्त्वाग्नऋतवर्धयन्तु संवत्सारादिष यो यानि सत्या सन्दिव्येन देतिभिचनेन विश्वाभाहि प्रदिशश्च दस्रः सञ्चेध्य स्वाग्ने प्रचावर्धये ममोच्चादिष्टमह ते सौभागाय मा ते ऋषण्मुखसत्कारो अग्ने ब्रह्माणश्च येषदः सन्तु मान्ये त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवानः सपत्नः प्रायुच्छन् क्षत्रेणाग्नेश्व न संरभस्व मित्रेणाग्नेत्रधा जातः स्वजातानाम् मध्यमेष्ठा राज्ञामज्ञहव्यो दितिभिह अतिविहातिस्रुधाप्यचित्तेरतिर्द्विषाः विश्वास्यज्ञे दुरिदादारत्वमथास्मभ्यम् सह वीरम् वयिन्दाः अठद्निष्टा चैव जादा निरुच्छपथयोगानि आपोमलानिव ब्रह्मायणुतः शपाः सर्वम् तन्नाधस्पदम् दिवो मोहमवातम् पृथिव्याध्युत्तम् येन सहस्रकाण्डेन पलेन पाहि विश्वताः परिमाम्बलेन प्रजाम् बलेन पाहि यद्धनम् अरातिर्माता रेन्मा ऋषुरभिमातयः सप्तारमेदु शपथो यः सुहार्तेनः सह चक्षुर्मन्दस्य गुरुहार्दपृष्टेरपि भगवते विद्रुतो नाम तारके क्षेत्र्यस्य <laughs> मुञ्जतामधर्मम् पाशमुत्तमम् अपेयम् भ्रातृच्छत्वपाच्छन्द्भे गालेः वेदक्षे स्त्रियाणाशन्यपक्षे त्रियमुच्छतो बभ्रोरर्जुनकाण्डस्य वे वृक्षे त्रियानाशन्यपक्षे त्रियमुच्छतु नमः स निःस्रसाक्षेभ्यो नमः सन्धेश्येभ्यः नमः क्षेत्रस्य पतले वे वृक्षे त्रियानाशन्यवक्षे त्रिया अथो येनम् वनस्पदजीवानाम् लोकमुन्नाय आगादुदागादयम् जीवानाम् गातमप्याघात् अभूत्पुत्राणाम् पितानुनाम् च अभगावत्तमः अधेदेरध्यागादयमधे जीव पुरागन् सतम् ह्यस्य विरलः सहस्रामुत विरुधाः देवास्थे चेतिमाविदम् ब्रह्माणामुत वेरुधाः चेति ते विश्वे देवा वेदम्भो म्यामहे यश्चकारसविष्कारस एव सुभेशक्रमः स एव तुभ्यम्भेषजाने गृणवर्धेषचाशुचेः क्षयत्रियात्वा निर्वृत्या जामि संसा द्वो चामेवरोणस्य पाशात् अनागसम्ब्रह्मणात्त्वा कुणामि सन्ते अग्निः सहाद्भिरस्तु शं सोमः वाहम् त्वाङ्क्षेत्रियान्निर्वृत्याजामि शंसा द्रोमुञ्चामेव रोडस्य अपाशात् अनागसम्ब्रह्माणात्त्वा कृणोमि शिवे ते ज्ञावा पृथिवेस्ताम् सन्ते वातो अन्तरिक्षे वयो धाच्छन्ते भवन्तु प्रेशश्च हम् त्वाम् च त्रियाम् निर्वृत्याजामि शंसाद्ब्रोमुञ्चामेव रोणस्य पाशात् अनागसम् ब्रह्मणात्त्वा शृणोमि इमाया देवे प्रतिषष्ठतः स्रोपात पत्नेरभिसौर्योष्ठे हम् त्वाक्षियाम् निर्वत्यागामि शंसा ध्रोमुञ्चामेव नस्य पाशात् अनागसम्ब्रह्माणात् पाकोमि श्रेते वा पृथिवे उभेस्ता त्वान्तर्जा स्या हम् त्वाङ्क्षे स्त्रियान्नवृत्याजामि निर्वत्यायामि शंसा द्वौ जामि वनो नस्य पाशात् अनागसम् ब्रह्माणात् वा गृणोमि शिवे ते जावा शिवे लोके वाहम् त्वाङ्क्षेयत्रयान्यत्याजामि शंसा ग्रोञ्जामि करोणस्य पाशात् अनाकसम्ब्रह्मणात्त्वा कृणो विश्वेते द्यावापृथिवेस्ता सूर्यमृतम् तम सोऽग्राश्चाधेदेवामुञ्जन्तो दे असृजन्यरेण एवाहम् त्वाङ् क्षेत्रियाम् निरवृत्यागामि संसा द्रुहम् जामि परोणस्य पाशात् अनागसम्ब्रह्माणात्त्वा गृणोमि शिवे तेद्यावाः पृथिवेस्ताम् दोष्यादोषेरसि हेत्याहेतिरासि मेऽन्या मे निरासि आत्मनिश्रेयाम् समते समङ्काम सत्यसि प्रतिसरोऽसि प्रत्यभिचरनोऽसि आत्मिः श्रेयाम् समते समङ्काम प्रतितमभिचारयोऽस्मान् वेष्ठियम् वयम् विष्मः आत्मनिः श्रेयाम् समते समङ्काम सूर्यराजिवर्चोधासि तनोपालोऽसि आत्मनिश्चयाम् समदे समङ्ग्राम शुक्रोऽसि भ्राजोऽसि स्वादसि ज्योतेरसे आत्मनिश्चयाम् समदे समङ्ग्राम यावाकृषिते उर्वा आन्तरिक्षम् क्षेत्रस्य पत्न्योरुगायोद्भूतः उतान्तरिक्षमुरुमाता गोपन्त इह तप्यन्थाम् मये तप्यमाने इदम् देवाशृणुतये यज्ञिहास्थफलद्वाजो मह्यमुक्तानि शंसते आशेषबद्धो दोरिचैर्नियुज्यथा यो अस्माकम् मन इदम् हिनस्ति इदमिन्द्रशृः सोमपयत्वा सदाशोच धाजो ह वीमे पुश्चामिदम् कुलेशेनेव वृक्षयो अस्माकम् मना इदम् हि नष्टि अशेतिभिश्चिसुभिः सा मेभिरादित्येभिर्वशोभिरङ्गेरोभिष्ठाभूत्तमावदना पितृणामानुन्दजयहरासादैव्येन या वा पृथिभिः अनुमादेयेदेधाम् विश्वे देवासो अनुमाराभम् हङ्गेरसत्वितरः सोऽम्यासः पापमार्चत्वपकामस्य कर्ता अतेवयोमारतोमन्यो ब्रह्म वायोनिन्देश क्रियमाणम् तपोऽशिटेनादेशम् त्व ब्रह्म द्विषन् यौराभे सन्तपाते सप्त प्राणा नष्टो मन्यस्तां सामिर्ब्रह्मणा अयायमस्य सादानमग्नितोऽलङ्कृतः आदधामितपदम् समिद्ध धातवेदसे अग्निः शले रम्बे वेष्टसंवागपि गच्छतु आयुद्धाग्ने जलसंवृणानो घृतप्रत्येको घृतपृष्ठाग्ने घृतम् भेत्त्वा मधुजाुगव्यम् विदेवापुत्रानभिरक्षतादिमम् परे धत्त धत्त नावच्च सेमञ्जलामृत्युम् गृणदीर्घमायोः बृहस्पतिप्रायच्छद्वासायेतत् सोमाय राज्ञे परेधातबाहु परेरम्बादिथा स्वस्तये भोर्गृष्टि नामाभिरस्तिबाहुः प्रथमम् चेवा शरदः पुरोचेदायश्च पोषामुपासंव्यायस्म ये क्यष्मा नमातिष्ठास्मा भवतु चेतनोः कृण्वन्तु विश्वे देवायुश्चे शरदशतम् यस्य चेवा सत्त्वसमपास्या आम् हरामस्तम्त्वा विश्वे वन्तु देवाः तन्त्वा ध्रातरः सुबधावर्धमाणमनोजायम् ताम् महवः सुजातम् विस्तालान्धृष्टम् घृषणमेकपाद्यान्ये घस्वम् सर्वाश्चण्डस्य तप्त्या नाशयामः सताम् बाः निर्वोमगुञ्ज्यादुहितरो गृहेभ्यश्चातयामहे असौ यो आधराद्गृहस्तत्र संपराय्याः तत्र सेतुर्ण्यच्छतु सर्वाश्च यातु धान्याः भो धर्म्यश्चेदः सदाम्बाः गृहस्य बुद्ध्यासेनास्था इन्द्रोमध्येनाथे तिष्ठतु यदि स्थक्षयः स्त्रियाणाम् यदेवापुलो शयशिपाः यदि स्थदस्यभ्यो जातानश्च चेतः सदाम्बाः परिधामान्याशामाचरिकाष्ठामि वासरन् अरेशम् सर्वानाजेन्बो नश्चेतस्सदाम्बाः यथाद्यौश्च पृथिवे च न एवामेः प्राणमाविभेः यथाहश्च रात्रे च नवेभिदोदृष्यदः एवामेह प्राणमाविभेः यथा सूर्यश्च चन्द्रश्च नवेभिदोडलिष्यदः एवामेह प्राणमाविभेः यथा ब्रह्म चक्षत्रम् च नवेभिदोदृष्यदः मेह प्राणमाविभेः यथा सत्यम् चानुतम् च न विभेदो नृष्यतः एवामेव प्राणामादिभेः यथा भूतम् च भव्यम् च न बिभेदो नष्यतःमेह प्राणमाविभेः प्राणापाणो मृत्योर्नापाकम् स्वाहा या वा पृथिवे गुणश्रुत्या मा पादम् स्वाहा सूर्य चक्षोषा मा पाहि स्वाहा अग्ने वैश्वाद विश्वेर्मा देवैः पाहि स्वाहा विश्वे न मा भर सा बलम् मेधा स्वाहा आयोरस्यायुर्मेधा श्रोत्रामसि श्रोत्रम् मेधा स्वाहा सपत्नक्षया नमसि सपत् न चातनम् मेधास्वाहा नमस्य रायचातनम् मेधास्वाहा विशाचक्षया नमसि विशाचातनम् मेधास्वाहाक्षया नमसिरान्वाचातनम् मेदा स्वाहा अज्ञेयत्ते तपस्तेन तम् वृते तपयो यम् विष्मः अर्जे यत्ते हरस्तेन तम्रते हरायो अस्मान् वेष्ट्यम् वयम् विष्मः अर्जे यत्तेऽर्चिस्तेन तमृत्यर्चायो अस्मान् वेष्ट्यम् वयम् विष्मः अर्जे शोतिस्तेन तम्रदे अस्मान् वेष्ट्यम् वयम् विष्मः ेयत्ते ते कस्तेन तमादेजसङ्गृह्णोयोमान् वेष्ट्यम् वयम् द्विष्मः वायो यत्ते हदस्तेन तम् प्रदेतपयोस्मान्द्वेष्ट्यम् वयम् द्विष्मः वायोयत्ते हरस्तेन तम् प्रदेहरायोस्मान्द्वेष्ट्यम् वयम् द्विष्मः वायोयत्तेऽस्तिष्ठेन तम् प्रत्यर्चायोस्मान्देष्ट्यम् वयम् विष्मः वायो यत्ते शोतिष्ठेन तम् प्रदेशोचायोस्मान्देष्ट्यम् वयम् द्विष्मः वायोयत्ते तेजस्तेन तमणते च सङ्गणोयोस्मान्देष्ट्यम् वयम् द्विष्मः सूर्य vastena nadam pradehavayo usmanam dityam ayam vishma suryayatte halastena nadam pradehavayo usmanam dityam ayam vishma suryayatte archistena nadam pratyachayo usmanam dityam ayam vishma सूर्ययत्ते शोचतिस्तेनातम् प्रदेशोचायोस्मान् वेष्ट्यम् वयम् विष्मः सूर्ययत्ते तेजस्तेनतमातेजसङ्गृणोयो अस्मान् वेष्ट्यम् वयम् विष्मः चन्द्रयत्ते तपस्तेन तम् प्रदेतपायो अस्मान् वेष्ट्यम् वयम् विष्मः चन्द्रयत्ते हरस्तेन अदम् प्रति हरायोस्मान् वेष्ट्यम् वयम् विष्मः चन्द्रयत्तेऽर्चिस्तेन अदम् वृत्यर्चायोस्मान् वेष्ट्यम् वयम् विष्मः चन्द्रयत्ते शोचिस्तेन अदम् वृते शोचायोस्मान् वेष्ट्यम् वयम् चन्द्रयत्ते तेजस्तेन तमतेजसम् कृणोयोस्मान् ज्येष्ठ्यम् वयम् विष्मः आपोयद्वस्तपस्तेन तम् प्रति तपतयोऽस्मान् ज्येष्ठ्यम् वयम् विष्मः आपो यद्वोहरस्तेन तम् प्रति हरतयोऽस्मान् ज्येष्ठ्यम् वयम् विस्मः आभो यद्वोर्तिस्तेन तम् प्रत्यर्चतयोमान्देष्ट्यम् वयम् विष्मः आभो यद्वः शोतिश्चेन तम् शरभग शरभ पुनर्वोयन्द् यादवः पुनर्हेदिक्ये मेदिनः यस्य वप्राहेत्वमर्तस्वाग शेवृध पुनर्वोयन्द् यादवः पुनर्हेदिक्ये मेदिनः यस्य स्थ चमर्थयो वप्राहे त्वमत्तस्वा माम्सान्यत् रोकानुम् रोक पुनर्वोयन्तु यादवः पुनर्हेदिह्ये मेदिनः यस्य स्थ समर्थयो वप्राहे त्वमत्त यस्य स्थमत्रयो वक्त्राहे त्वमत्तस्वा मांसान्यत्त उपद्य पुनर्वोयन्तु यस्य स्थ तमत्रयो वस्त्रा हे त्वमत्तस्वा मांसान्यत्ता यस्य स्थ त्वमत्तयो वक्त्रा फरोजे पुनर्वोयम् दया तव पुनर्हेतिक्ये मेदिने यस्य चमत्तयो वक् प्राहे त्वमत्त्व स्वामान्धान्य शण् देवे पृष्ट्यपर्ण्य शुग्राहि कम्भरी रामा भक्षितः सह मामेयम् प्राधामा पृष्ट्यपर्ण्या जायत तयाहम् दुर्णाम् नाम् शिरो वृष्ट्यामि शकुनेरिव अरायामसक्पानयश्च स्फातिञ्जहे गर्भासम् कण्वम् नाशयष्णे पर्णितः स्व च गिरिमे न आदेशय कण्वाञ्जीवितलोपानाम् स्कन्दे विवृष्टिपर्ण्यग्निदेवानुतहन्निः पराजयेनान् प्रणोदकण्डाञ्जीवितयोपनान् अमान् सु यत्र गच्छन् क्रव्यातो अजीगमम् हेहयन् तुशवो ये कालेयुर्वायुर्येषाम् सहचारम् जदोष पृष्टा येषाम् रूपधेया निवेदास्मिन् तान् गोष्ठे स इमङ्गोष्ठम् पचवम् स्रावन्तु बृहस्पति वा न प्रजानन् श्रीवालेनायत्वा ग्रामेषामाजग्पुषोऽनुमते नियत्स सं संस्रावन्तु पचवश्च अश्वाः समुपो लोषाः सन्धान्यस्य संसिम् चामिगवाम् क्षीरम् समाज्येन बलम् रसम् संसिक्तास्माकम् वीराध्रुवागा भोमयि गोपातौ आहरामिगवाम् क्षीरमाहर्षम् धान्यासम् आहृता अस्माकम् वीरापत्ने विदमस्तकम् नेच्छत्रुः प्राशन् प्राशम्प्रति प्राशोजहक्यरसां कम् वोषधे सुवर्णस्त्वान्दविन्दत्सोकरस्त्वा खनन्नसा प्राशम्प्रति प्राशोजहक्यरसां कम् वोषधे इन्द्रो हचक्रे त्वाभावसूरेभ्यस्तरे तवे प्राजोद्यरसान् गृह्वोषधे पाटामिन्कव्या स्नातसोरेऽभ्यस्तरे दवे प्राशं हृदय प्राजोदह्यरसान् गृह्ण्वोषधे प्रयाहं शत्रून् साक्ष इन्द्रः सादावृकामेव प्राशंहृदय प्राजोदह्यरसान् गृह्ण्वोषधे हृद्रजलाषधे प्राशम्प्राचोदश्चण्डोषधे तस्य प्राशम् पञ्जाहि न इन्द्राभिदासा अधेरो ब्रोहि शक्तेभ्यः प्राशिवामुक्तारङ्कृते तुभ्यमेव जारिमन्वर्धतामयमेव मन्ये मृत्यवो हिंसः शतये मातेव पुत्रम् प्रमानारुपस्थे हासः निर्त्रये नम्बरो णो वा जाता जरामृत्यम् कृणुताम् संविधानो तदज्ञमहोता वयजनाः निद्वान् विश्वा देवानाञ्जनेमा विभक्ते त्वमेन च पशूनाम् पार्थिवानान्ये धाता उतपा चरित्राः णोहासेन्माबालो मे मम् मित्रावाधिषन्मोऽत्राः योष्ट्वाः पिता कृता शामृत्यम् कृणुताम् संविधाने आदिदे प्राणाबालाभ्याम् कुपितश्चतम् हिमाः इमज्ञायोजेवर्चा सेनयप्रियम् रयतो वरुणमित्रराजन् मा देवास्मादि च शर्मा यच्छ विश्वे देवा जलदष्टिर्यथा सात् पार्थिवस्य रसे देवाभगश्च दङ्गो ओवले आयुष्यमस्मा अग्निः सोऽवर्चाधा बृहस्पतीः आयोरस्मैधेहि याज्वेदः प्रजान्तष्टरधिनिधेह्यस्मै आयस्पोषम् सवितलासोभास्मे शतञ्जेवातिशरदस्तवायम् आशीर्णवोर्जामुतसौ प्रजास्तम् दक्षम् दत्तन्द्रमेणम् स चेतसौ जयम् क्षेत्राणि सहसायमिन्द्रगन्धानो अन्यानधारान्सपत्नान् इन्द्रेण दत्तोऽवरो शिष्टो भवद्भिरुग्रः प्रहीतो नागन् एष वाहम् जावा पृथिवेरुपश्चेमाक्षोधन्मात्रे चत् ओर्जयमस्मावोर्जस्वदे धत्तम् पयोस्मैपयस्वदे धत्तम् ऊर्जयमस्मै ज्या वा पृथिवी आधाताम् विश्वे देवा मरुतवोर्जय शिवाभिश्च हृदायम् दर्पयान्यतमेवो मोदिशेष्ठाः सुवर्चाः सभासिनोऽपिबताम् मन्दमेतमश्विनो रूपम् वारिधाय माया इन्द्राजेताम् सहसृज विद्धोऽ अग्रमूर्जाम् स्वधामच धाम् या त्वङ्गे एव मा शरदस्वर्चा मातादस्वभिरदश्चक्रन् यथेदम् भोम्याधितृणम् पातो मथायति एवामथा मनो यथा माम् कामिर्ण्यसो यथा मन्नातासाः सञ्चेन्नयाथोऽश्विना कामिना सञ्चावक्षाथः संवाम्भः स्वात्मनसञ्चित्ता ये समोभ्राता यत्सो कर्णा वे वक्षवानमेवावे वक्षवाः तत्र न गच्छताद्धवम् शल्यदेव पुल्मालै यथा यदन्तरम् तद्बाह्य कन्यानां तदन्तरम् कन्यानाम् मनो गन्पते कामाजने कामोऽहमागामम् अश्वः कलक्रतद्यथा भगेनाहम् धामम् इन्द्रस्य या महे दृषत्क्रमे विश्वस्य दर्हानियापि न श्विसङ्क्रमेन्द्र खल्वाष्टम दृष्टा मदृहमथो गुरो मदृहम् अल्कण्डोन् सर्वान् छनुनान् क्रमेन्वचासा जम्भयामसि अल्कण्डोन्हन् महतावधेन धूनादो नारसा भूवन् शिष्टान् सिष्टान्नि तेराविवाचायथा क्रमेणान् कीर्चिषाते अन्वान्धेर्षण्या आमथोपास्तेयम् क्रमेण अपरस्क्रमम् व्यद्धरं कृमेन्वचासायम्भयामसि ये क्रमायः पर्वतेषु वनेष्वषधेषु वदष्वप् स्वा आन्तः ये अस्माकम् तन्वमेषु सर्वम् दद्धन्विजनीवक्रमेणा बुद्ध्यन्नादित्यक्रमेन्हन्तु निम् रोचन्हन्तु रश्मिभिः ये अन्धक्रमा योगवि विश्वरूपम् चतुर्लक्षम् कृमिम् सारङ्ग अमर्जोनम् शृणाम्यश्च वृष्टेरपे वश्यामि यच्छिराः अत्रिवद्वः कृमयोऽहन्निरङ्गमरग्निवत् अगस्त्यस्य ब्रह्मणा संवेरस्म्यहम् क्रमेण हतो राजा कृमेणामुदेशाम् हतो हतमाता कृपिहतभ्राता हत स्व सा हतासोस्य वेषसो हतासः परिवेषसः अथो ये क्षुल्लका एव सर्वे ते कृताः रतेषृणा विशृङ्गेयाभ्याम् विदुदायसे भिलग्ने ते दुषुम्भञ्जश्च विषधानाः अक्षेभ्याम् तेनासेकाद्भ्याम् कर्णाद्भ्याम् सुबोगादधि यक्ष्मम् शेषर्षण्यम् मस्तिष्काजिह्वा या विवृहामि च ग्रीवाद्भ्यस्तवष्ण्याभ्येकासाभ्यानोक्यात् यक्ष्मम् दोषण्या आमुंसाभ्याम् बाहुभ्याम् हृदयाच्च परिक्रोन्नो हले यक्ष्णात्पार्श्वाभ्याम् यक्ष्मम् मदस्नाभ्याम् यज्ञस्य विगृहामसि आन्त्रेभ्यस्ते कुदाभ्यो वनिष्ठोरुदराधसि यक्ष्मम् कुक्षिभ्याम् प्राचनाभ्याम् विगृहामि च ऊरुभ्याम् दयाश्चेवद्भ्याम् पार्ष्णिभ्याम् प्रवादाभ्याम् यक्ष्मम् भवत्या आम् श्रवणेभ्याम् भासारम्भम् सोऽविरहामिदे अस्थिभ्यश्च मद्यभ्यस्नावद्भ्यो धमनेभ्यः यक्ष्मम् पाणिभ्यः मङ्गुलेभ्यो नखेभ्यो विरहामिते अङ्गे अङ्गे लोम् नीलोम् नियस्य पर्वाणि पर्वणि यक्ष्मम् परस्यम् च वयम् कश्यपस्य वि बर्हेण विश्वम् चिबहामसि यीषे पशुपतिःपशोणाम् चतुष्पदामुदयोद्विपधा निष्क्रेदस्येयम् भानुमे दुराय स्पोढाय जामानम् स गन्धा रमञ्जन्तो भुवानश्च वेतो धातुम् धत्त यजमानाय देवाः उपाग्रेकम् जतमानैरस्थाप्रियम् देवानामप्येत उपाधाः एवमानमनुदीर्ध्यानान्वेक्षन्तमनसा चक्षूषा च अग्न्यष्टानग्रहः प्रभो मोक्तुदेवो विश्वग्राह्मा प्रजया संव्रराणः ये ग्राम्याः पशवा विश्वरो बाविरोपाः सन्तो बहुधैकलोपाः वायुष्ठानग्रे प्रभो मार्तुरेव प्रजाताजिप्राजया संव्रानः प्रजानन्दप्रदे गृह्णन्त पूर्वे प्राणमङ्गेऽभ्यः पर्याचरन्तम् दिवम् गच्छप्रदे दृष्टा शरीरैः स्वर्गै याहि पतिभर्द्रजानैः हे भक्षयन्तोऽनवसोम्यानुदुर्यानज्ञयो अन्वदप्यन्ताधिष्ठ्याः या तेषामवया तुष्टिस्मिष्ट्यन्नस्ता त्वेन वद्विश्वकामा यज्ञपातिमृषा ये येन सा हन्यर्भक्तम् प्रजानुदप्यमानम् वसव्या शोकानपायान् पराधसन्नश्चेभ्यस्वस विश्वकर्मा अधान्यान्सो मान्मन्यमानो यज्ञस्य विद्वान्सा मयेन धीराः यदेनश्च गुरुवान् बद्धजे शदम् विश्वकर्मन् प्रमुन्दास्मस्तये घोरादृशायो नमास्तेभ्यश्च क्षुर्यतेषाम् मनासश्च सत्यम् बृहत्पदाय महिरद्युमन्नमो विश्वकर्मन्नमस्ते बाह्या आस्मान् यज्ञस्य लक्ष्मप्रभृतमुखम् च वाचा श्रोत्रेण मनसाजुहोमि यमै यज्ञम् वितम् विश्वकामण देवायम् दूमनस्य मानाः नो अग्नेसु मातिम् सम्भलोगमे दिमाङ्कुमारीम् सह नो भगेन जुष्टावेषु समानेषु बन्तुरोषम् पत्या सौभागमस्तस्य सोम जुष्टम् ब्रह्म जुष्टमर्यम् न सम्भृतम्भगम् धातुर्देवस्य सत्येन शृणो मे पतिवेदानम् इयमग्नेनादेपतिम् विदेष्टसोमो हि सुभगाम् कृणोति स्वाहा पुत्रान्महेशे भवाति गत्वा पतिम् सुभगा विराजतो यथा घरो माघवम् सारो रेष प्रियो मृगानाम् सुषता बभूव भगस्य जुष्टेयमस्तु नारेशम् प्रेयापत्या विराधयन्ति भगस्य नापमारोह पूर्णा मनोपदस्वती तयोपप्रतार ययो वनप्रादिम्याः आक्रन्दयधनपदेवनसङ्कृणो सर्वम् प्रदक्षिणम् क्रे नयो वनःप्रादिकाम्याः इदम्भिरन्द्यम् गुल् कुल् मय मोक्षो अशोभगाः एते पदेभ्यस्वामनुप्रतिकामाय वेत्तवे आदेन यतु स वितान यदुपगर्यः प्रतिकाम्याः परस्येधे ह्यौषधे ओ